गणेशपुराणं क्रीडाखण्डम् अध्यायं 106. अण्ड् सिक्स् क उवाच वर्षे नमस्कृत्य महेश्वरं भस्माङ्गरागरुजिरं पञ्चास्यं दिग्भुजं शुभं रुण्ढमालाधरं सुप्तं चन्द्रशेखरमच्युतं मयूरे शोधजग्राहशशिनं तच्चिरोगतम् क्रीडन् बहिः समायादो बालकैः परिवारितः सुहृद्भिपरिनृत्यद्भिर्वदद्भिश्च परस्परम् एतस्मिन्नन्तरे तत्र दैत्यो मङ्गलसञ्ज्ञकः करालवदनक्रोडी विजेदा मरमाद्भुतः वराहरूपो बलवान् दन्तच्छिन्नमहीरुहः वज्रसारसडाभिः स भिन्दन् व्योमपदैर्धराम् अञ्जनाद्रिरिवश्यामो वह्निकुण्डनिभेक्षणः दृष्ट्वा तं विद्रुदा बाला वर्षाखननिभस्वनः न धृष्टः सुकर क्वापी दृश इत्यभ्रुवंस्त ते बालां स्तावद्देवो दधार दन्तयोर्दुष्टं तदा सूकरदानवम् अधापरेण दधारा दधाराधरपोत्रकम् पाडयामास सहसा वंशखण्डमिवार्भकः पूर्वदेहं समास्थाय दशयोजनविस्तृतं पदितश्चूर्णयन्नुवृक्षान् धारयन् धरणीतलं ततस्तमब्रुवन् बालाधन्योऽयं पार्वतीसुतः क्षणेन नाशितो दैत्यो लीलया सौमहाबलः अस्य दर्शनतस्त्रस्था वयं यादा दिशो दश चूर्णितानि येनेहचूर्णितानि गृहाणि च क उवाच ततः शिवो चशिनं यदा क्रोधा संरक्तनयनो विष्टपं प्रदहन्निव रुषा विष्टो रक्षणं क्रियते कथं केन दैत्येन नीतो मेललाढस्थो मलः शशी क उवाच ततो लीना गणाः सर्वे कम्पमानाभयादुराः अपरे धैर्यमालम्ब्य वदन्ति स्म शिवं प्रति उमाकान्दभवत्पुत्रो मयूरेश्वरसंज्ञकः क्रीडितुम् बहिरायातस्तस्य हस्ते विलोकितः चन्द्रस्तेन कदानीदो न जानीमो वयं विभो इति तद्वचनम् श्रुत्वा प्रोजेरुष्टो महेश्वरः कथं नु क्रियते रक्षा भवद्भिर्भक्ष्य तत्परैः चन्द्रो वा चन्द्रकर्ता वा यद्यानीतस्तदाशुभं नो चेद्भस्मीकरिष्यामि सर्वेषां नात्रसंशयः संशयः तदस्ते क्षुब्धमनसोद्धावमानस्त्वरान्विताः मा समभ्यत्य प्राभणन् नृष्टचेदशः या हि शिवं देहं चन्द्रं वा यच्चतस्कर गणवाक्यं परिश्रुत्य चुकोपगणनायकः नमेस्ति गणना कापि भवतां तस्य वा गणाः जगत्त्र यजनन्यामे तनयस्य प्रभाविणः क उवाच तस्य श्वासेन सर्वे ते वात्या पत्रमिवोद्धृताः पे दुःशिवस्य पुरदो गणादीनास्तदाखिलाः अधिरोषान्महादेव प्रमदा दीनधा ब्रवीद आनीयतां स दुष्टात्मा बद्धो मातनयो यादायत्र क्रीडारदशिशुः ददृशुस्तं शिशुगदं क्रीडन्तमकुतो भयं पृष्टितुं तान् समाह्यादान् मोहयित्वा विनायकः अन्तर्हितश्चतुर्दिक्षु गणास्ते तं व्यलोकयन् गृहे गृहे कननेषु नापश्यस्ते विनायकम् क्वचिद् दृष्ट्वा तुदं प्राहुरस्मदग्रे कथं भवान् गन्तुं शक्तो ब्रह्मलोके स्थितं नेष्या मतं शिवम् एवमन्तर्हितो दृश्यो वारं वारं बभूवसः तदखिन्नान् गणान् दृष्ट्वा परमात्मा कृपान्विदः तस्थौ तत्पुरतः सम्यग् हर्षनिर्भराः बबन्धुर्गिरिजासूनुं निन्युस्ते शङ्करं प्रदि पृथिवी भारसदृशमुपविष्टं तु ते गणाः न शेगुरुधापयितुं ततो विस्मितमानसाः अदोद्यमागणः सर्वे शिवमेत्य समुचिरे सर्वे वयं समानेतुमेकं शक्ता न शङ्कर आज्ञापयामास शिवो नन्दिनं पुरदस्थितं झटित्यानय गच्छ त्वं मयूरेशं तुतस्करं शेषं सूर्यं शशाङ्कं च हनिष्येखं तवाज्ञया कनीयसो न मे महेश्वर क इत्युक्त्वा गाद्वायुवेगो भञ्चन्वृक्षांश्च पर्वतान् क्रोधसंरक्तनयनस्तीक्ष्णशृङ्गोऽग्रसन्धिवम् उवाच तं मयूरशं याहिरे त्वं शिवं प्रदीप। नो चेद्धनयिष्यामि न समोहिगणैरखम् एवं वदति मयूरेशोरुषान्विदः शवासचक्रे क्षिपत्तं तु गमनागमसङ्कुले तत्याजतम् दृढं श्वासादधिखिन्नं शिवान्तिके त्वमन्तं धीरं वक्त्रा पृथिव्याम्पतितं तुदं ब्रुवन्तं पौरुषं नानामूर्च्छितं द्विमुहूर्तदः अपश्यच्च मयूरेशं जानुभागे स्थितं शिवः दे दीप्यमानं वपुषाद् दिव्य भूषासमन्वितं गणावूचु शिवं दृष्ट्वा भालचन्द्रं यथा पुरा ललाडे दे शशिदेववृथा ज्ञाप्ता वयं शशिनं वीक्ष्य मस्तके शिव उवाच श्रातास्ते चनाम च नंदी चा मंद्रस्ललाडे मे वृद्धा युद्धम बूद्धि वह प्रमदा ऊजु अद प्रभृति देंेस्वामीन मयूरराड क उच तथेति शिवपूजेतान् गणराजो भवत्तु सः नत्वा शिवं गणेशं च गणेश जननीमपि प्रशंसयित्वा देवेशं मयूरेशं तथाविधं गर्जन्तोऽधगणा जग्मुर्मुदा स्वं स्वं निवेशनम् इति श्रीगणेशपुराणे क्रीडाखण्डे षडधिकशततमोऽध्यायः ओ